श्रीमद्भागवतमहापुराणं पञ्चमस्कन्ध अथ नवमोऽध्यायः भरज्जीका ब्राह्मणकुल्मेजन् श्रीसुकुवाच अस्य कस्य द्विजवरस्या गिरप्रवरस्य समदमुतपः स्वाध्यायाध्ययनं त्यागसन्तोषतिक्षाप्रश्रय विद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृश्रुतिं श्रुतशीलाचाररूपोदार्यगुणा न सोदर्या अङ्गजां दभोवर्मिथुनं च यभी यस्यां भार्यायां यस्तु तत्र पुमांस्तं परं भागवतं राजर्षिपरवरं भरतमुश्रेष्ठमृगशरीरं चर्मशरीरेण बिभ्रत्वं गतमाहु तत्रापि स्वजनसङ्गाच्चम्भिसमुद्वीजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरण गुणविचिं विवरण चरणारविन्दयुगलं मनसा विदधन्दात्मनः प्रतिघातमाशङ्कमालो भगवदनुग्रहेणानुस्मृत स्वपूर्वजन्मावलिरात्मानमुन्मद्दजनाञ्जनान्दबधिरस्वरूपेण दर्शयामासलोकस्य तस्यापि हवा आत्मजस्य विभ्रहपुत्रस्नेहानुबद्धमना आसमावर्तनम्ना संस्कारान् यथोपदे संविदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्मणिमाननभीं प्रीतानपि समशिक्षयन्सिष्ठेन हि भाव्यं पितुः पुत्रेणेति स चापि तदुः पितृसन्निधावे वासध्रेचीनमिव स्म करोति छन्दास्यध्यापयिष्यन् स व्याहृतवीं सप्रणवं शिरस्त्रीपदीं सावित्रीं ज्ञेष्मवासन्ति कान्मासानधियान् मव्यसमवेतरूपं ग्राहयामास एवं स्वतनुजम् आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियम गुर्वनं न शुश्रूषणाद्योपकुर्वाणककर्माण्यं वियुक्तान्यपि समनुष्ठिष्टेन भाव्य मिथ्या सदा ग्रहपुद्रमनुषास्य स्वयं तावद् कालेना प्रमत्तेना स्वयं गृह एव प्रमद्य उपसंहृतः अथ यवीयसे द्विजसति स्वगर्भजातं मिथनं सपत्न्या उपन्यस्य स्वयमनुसंस्थयां प्रतिलोकमगात् पितर्योर्परते भ्रातरेणमद्वद्प्रभावविदस्त्रय्या विद्यायामेव पर्यवसितमतयो न परविद्यायां जलमतिरिति भ्रान्तोरनुशासननिर्बन्धान्यवृत्तन्त स च प्राकृतेजुपदं वसुभिरुन्मद्य जल जलबधिरेद्यभिभाषपाणौ यदा तदनुरूपाणि प्रभासते कर्माणि च सहकार्यमाण परेक्षया करोति विष्टितो वेतनतो वा याञ्चयां यदीक्षया ओपसादितमल्पं बहुमिष्टं कदन्नं वा व्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् नित्यनिमिद्धमिद्ध स्वसिद्धविशुद्धानुभवानन्द स्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वन्निमिद्धयोः असम्भावितदेहाभिमानः शीतोष्णवात् वर्षेषु वृष इवानावृताङ्गः पीनः सङ्घनाङ्गः सन्दिलसंवेश नानुन्मर्जला मज्जनरजसा महामलिरिवानभिर्दग्धब्रह्मवरचसकुपटावृतकटीरूपवीतेर्नोरुमशिणां द्विजातिरिति ब्रह्मबन्धुरिति संज्ञया तज्ञं जनावमतो विचचार यदातु परत आहारं कर्मवेतनत इहवान श्वभ्रातृभिरपि केदारकर्मणि निरूपित तदपि करोति किन्तु न समं विषमं न्यूनम् अधिकामिति वेद कळपिण्याकं फलीकरणकुल्मासस्थाली पुरीशादिन्यप्य मृतवदभ्य वह वहरति अद् कदाचिन् कदाचिन् कश्चिदिसलपतिर्भद्रकाल्यै पुरुषं पशुमालं भृता पद्यकावः तस्य दैवमुग्धस्य पशोः पद्वीं तदनुचाचराः परिधावन्तो निशि निषीथसमये तमसा वृतायाम् अनधि गतपशव आकस्मिन्केन विधिना केदारान् वीरासनेन मृगवाराहादिभ्य तन्नक्षमाणं नङ्गिर प्रवर श्रुतमपश्यन् अथ त एन मनवध्यलक्षणम् अममृश्य भर्ति कर्मनिष्पत्तिं मन्यमाना बद्ध्वा रचनया चण्डिकागृहमुपनेन्योर्मदां विकसितवदनाः अथ प्रणयस्तं च विधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेपश्रकतिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्य लाजकिसलयाङ्कुरफलोपहारोपेतया वेशससंस्थया महता गीतस्तुति मृदङ्गप्रणवघोषेण च पुरुषपशुं भद्रकाल्या पुरत उपवेशयामासुः अथ विशलराजपळिः पुरुषपशोर स्थिगासवेन देवीं भद्रकालीं यक्षमाण तदभीन्मन्त्रीत मतिमति कराल निशितमुपादते यत् तेषां मृषलानां रजस्तमप्रकृतीनां धनमदरं च उत्स्यक्तमनसां भगवन् कला कदार्थे कलार्थे पतेन स्वैरं विहरतां हिंसाविहारलां कर्मादिदारुलं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मषिसुतस्य निर्वैरस्य सर्वभूतसृहृदसूनायाम् अभ्यननुमतम् आलम्बनं तदुपलभ्य ब्रह्मतेजसातु दुर्विषहे हेण दन्तय्यमा दन्द्यमादेन वपुषा सहसोच्च चाट चैव देवी भद्रकाली मृदम् अमरस रोषाविसरभतं विलसितं भृगुटिं विटपकुटिलं द्रष्टारूढे क्षणाटोपाति भयानकवदना हन्तुकामे वेदं महाटहासमति सम्भरेण विमुञ्चन्ति तत उत्पद्य पापीयसां दुष्टानां तेनैवासिनां विवक्षं षीणाम् श्रेष्णां जलास्रवन्तम् असि गाशवमध्योष्णं शगणेन निपीयाति पानमदविह्वलोज्यैस्तरां स्वपार्षदैः सह जगौ नृत च विजहार च शिरः कन्दुकलीलया एवमेव खलु महदभिचाराति क्रमकार्षीनात्मने फलति न वा एतद्विष्णुदद्द यत्सम्भ्रम स्वशिरच्छेदन आपतितेऽपि विमुग्धदेहाध्यात्मभाव सुदृढहृदयग्रन्थीनां सर्वसद्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवता निवसादिवरायुधेनाप्रमद्येन तैस्तैर्भावैर्परिरक्षमाणानां तत्पादमूलमकुतञ्चिह्यमुपस्थितानाम् भागवत भागवतपरमहंसानाम् इति श्रीमद्भागवते महापुराणे प्रपञ्चां चयितायां पञ्चमस्कन्धे जडभरद्दरिद्रे नवमोऽध्यायः